मार्कण्डेयपुराणम् अध्यायं हण्ड्रेड् एण्ड् टु मार्तण्डोत्पत्तिवर्णनं मार्कण्डेय उवाच ततस्व तेजसस्तस्मादाविर्भूतो विभावसुः अदृश्यदत्तदादित्यस्तप्तताम्रोपमप्रभः अध अधतां प्रणतां देवीम् तस्य संदर्शनान्मुने प्राहभास्वन्वृणुष्वेष्टवरं मत्तोऽयमिच्छसि प्रणदाशिरसा सा च जानुपीडितमेदिनी प्रत्युवाचविवस्वन्दं वरदं समुपस्थितं देवप्रसीदपुत्राणां हृदं त्रिभुवनं मम यज्ञभागाश्च दैत्यैश्च दानवैश्च बलाधिकैः तन्निमित्तं प्रसादं त्वं कुरुष्व मम गोपते अंशेन तेषां भ्रातृत्वं गत्वा नाशयत्तद्रिपून् यथा मे तनया भूयो यज्ञभागभुजः प्रभो भवेयुरधिपाश्चैवत्रैलोक्यस्य दिवाकर तथानुकम्पां पुत्राणां सुप्रसन्नो रवे मम कुरुप्रपन्नार्तिहरस्ति कर्ता त्वमुच्यसे मार्कण्डेय उवाच तदस्तामाख भगवान् भास्करो वारितस्करः प्रणतामदितिं विप्रसाद विप्रप्रसादसुमुखो विभुः सहस्रांश्येन ते गर्भे सम्भूयाहमशेषतः त्वत्पुत्रशत्रूनदि नाशयाम्याशुनिर्वृतः इत्युक्त्वा भगवान् भास्वानन्दर्धानमुपागमद निवृत्ता सापि तपसः संतृप्ता किल वाञ्छिता ततो रश्मिसहस्रा तु सौषुम्न्याढ्यो रवेकरः विप्रावतारं संचक्रे देवमादुरधोदरे कृच्छ्रचान्द्रायणादीनि सा चक्रे समाहिता शुचिसंधारयामासदिव्यं मासदिव्यं द्विच तदस्तं कश्यपः प्राक् किञ्चित् कोपप्लुताक्षरं किं मारयसि गर्भाण्डमिति नित्योपवासिनी सा च तं न मारिदं विपक्षाणां मृत्यवेतद्भविष्यति मार्कण्डेय उवाच इत्युक्त्वा तं तदा गर्भमुत्ससर्जसुरारणिः जाज्वल्यमानं तेजोभिः पत्युर्वचनको पिता तं दृष्ट्वा कश्यपो गर्भमुद्यद्भास्करवर्चस्सम् तुष्टावप्रणदो भूत्वा ऋद्भिराद्याभिरादराद संस्तूयमानः स तदा गर्भाण्डात् प्रकटो भवद पद्मपत्रसवर्णाभस्तेजसा व्याप्तदिङ्मुखः अथान्तरिक्षादाभाष्यकश्यपं मुनिसत्तमम् सदोऽयमेकगम्भीरवागुवाचा शरीरिणी मारितं ते यतः प्रोक्तमेददण्डं त्वया मुने तस्मान्मुने सुतस्तेयं मार्दण्डाख्यो भविष्यति सूर्याधिकारं च विभुर्जगत्येष करिष्यति हनिष्यत् त्यसुराश्चायं यज्ञभागहरा नरीन् निशम्ये दिवजो गगनात्समुपागमन् प्रहर्षमदुलं यादा दानवाश्च तदो जसः दैत्येया युद्धाय वशदक्रदुः सह देवैर्मुदा युक्तो दानवाश्च समभ्ययुः तेषां युद्धमभूद्घोरं देवानामसुरैः सह शस्त्रास्त्रदीप्तिसन्दीप्तं समस्तभुवनान्तरं तस्मिन् युद्धे भगवदा मार्तण्डेन निरीक्षिताः तेजसा दह्यमानास्ते भस्मीभूता महासुराः ततः प्रहर्षमदुलं प्राप्ता सर्वे दिवौकसः तुष्टुवुस्तेजसा योनिं मार्तण्डमदिं तथा स्वाधिकारांस्तथा प्राप्ता यत्नभागांश्च पूर्ववत् भगवानपि मार्तण्डस्वाधिकारमथाकरोत् कदम्बपुष्पवद्भास्वानधश्चोर्ध्वं च रश्मिभिः वृत्ताग्निपिण्डसदृश्योद्धेणादिस्फुरध्वपुः इदिश्री श्रीमार्कण्डेयपुराणे मार्तण्डोत्पत्तिर्नामद्वि अधिकशततमोऽध्यायः ओ